ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं 14 मदनकामेश्वरप्रादुर्भावः हयग्रीव उवाच एतस्मिन्नेव काले दुब्रह्मालोकपितामहः आजगामाधदेवेशीं द्रष्टुकामो महर्षिभिः आ जगाम तदो विष्णुरारूढो पिनदा सुतं शिवोऽपि वृषमारूढः देवर्षयो नारदाद्याः समाजग्मुर्महेश्वरीम् आययुस्तां महादेवीं सर्वे चाप्सरसाङ्गणाः विश्वावसुप्रभृतयो गन्धर्वाश्चैव यक्षकाः ब्रह्मणाधसमाधिष्ठो विश्वकर्मा विशाम्पतिः दिव्यं यथा मरपुरं तथा तदो भगवदी दुर्गा सर्वमन्त्राधिदेवता विद्याधिदेवता श्याम समाजग्मतुरम्बिकां बाह्यद्या मादरश्चैव स्वस्वभूतगणावृताः सिद्धयोह्यणिमाद्याश्च योगिन्यश्चैव कोडिशः भैरवाः क्षेत्रपालाश्च महाशास्ता गणाग्रणीः महागणेश्वरस्कन्दो बधुको वीरभद्रकः आगत्य ते महादेवीं तुष्टुवुः प्रणतास्तदा तत्राधनगरीं रम्यां साट्टप्राकारतोरणां गजाश्वरथशालाढ्यां राजवीधिविराजितां सामन्तानाममात्यानाम् सैनिकानां द्विजन्मनां वेदालदासदासीनां गृहाणिरुचिराणि च मध्यं राजगृहं दिव्यं द्वारगोपुरभूषितं शालाभिर्बहुभिर्युक्तं सभाभिरुषशोभितं सिंहासनसभां चैव नवरत्नमयीं शुभाम् माध्ये सिंहासनं दिव्यं चिन्तामणिविनिर्मितं स्वयं प्रकाशमद्वन्द्वमुदयादित्यसन्निभं विलोक्य चिन्तयामास ब्रह्मालोकपितामहः यस्त्वेतत्समधिष्ठाय वर्तते बालिशोऽपि वा पुरस्यास्य प्रभावेण सर्वलोकाधिको भवेत् न केवला स्त्रीराज्यार्हा पुरुषोऽपि तया विना मङ्गलाचार्यसंयुक्तं महा अनु महापुरुषलक्षणम् अनुकूलाङ्गनायुक्तमभिषिञ्चेदिति श्रुतिः विभातीयं वरारोहा भूर्ता शृङ्गारदेवता वरोऽस्यास्त्रिषु लोकेषु न चान्यः शङ्करादृते जडिलो मुण्डधारी च विरूपाक्षकपालभृद कल्वाशी भस्म नास्ति विभूषणः अमङ्गलास्पदं चैनम् वरयेत्सा सुमङ्गला इति चिन्तयमानस्य ब्रह्मणोऽग्रे महेश्वरः कोडिकन्दर्पलावण्ययुक्तो दिव्यशरीरवान् दिव्याम्बरधरसृग्वी दिव्यगन्धानुलेपनः हा। किरीडहारकेयूरकुण्डलाद्यैरलङ्कृतः प्रादुर्बभूव पुरतो जगन्मोहनरूपधृक् तं कुमारमथालिङ्ग्यब्रह्मलोकपितामहः चक्रे कामेश्वरं नाम्ना कमनीयवपुर्धरं तस्यास्तु परमाशक्तेरनुरूपो वरस्त्वयमिति निश्चित्य तेनैव सहितास्तामधाययुः अस्तु वंस्थे परांशक्रिं ब्रह्मविष्णुमहेश्वराः तां दृष्ट्वा मृगशावक्षीं कुमारो अभवन् अभवन्मन्मथाविष्ठो विस्मृत्य सकलाक्रियाः सापितं वीक्ष्य तन्वङ्गो मूर्तिं मन्दमिव स्मरम् मदनाविष्टसर्वाङ्गी स्वात्मरूपममन्यत अन्योन्यालोकनासक्तौ तावुभौ मदनातुरौ सर्वभावविशेषज्ञौ धृतिमन्तौ मनस्विनौ परैरज्ञादचारित्रौ मुहूर्तास्वस्थचेतनौ अधो वाचमहादेवीं ब्रह्मालोकैकनायिकां इमे देवाश्चर्षयो गन्धर्वाप्सरसां गणाः त्वामीशां द्रष्टुमिच्छन्ति सप्रियां परमाहवे को वानुरूपस्ते देवि प्रियो लोकसंरक्षणार्थाय भजस्वपुरुषं परम् राज्ञी भवपुरस्यास्य स्थिता भवपरासने अभिषिक्तमहाभागैर्देवर्षेभिरकल्मषैः साम्राज्यचिह्नसंयुक्तां सर्वाभरणसंयुतां सप्रियामासनगदाम् द्रष्टुम्छा महे वयं श्री ब्रह्मांडे महापुराणे उत्तरभागे हयग्रीवागस्त्य संवाद ललिताख्या मदन कामेश्वर प्रादुर्भावो नाम ओम।